प्राचीनभगुं शङ्करोति देवमनुष्यादि सौविदपजं तप्राची दक्षिणा वितरः प्रदेशे मनुष्या उदेशे प्राचेन परिश्रय लोकोका मृता वा एषा त्वकमेऽध्यायत्ये श्मश्रुमृता मे वाहत्यङ्गिरसस्वर्गं लोकयन् देहे क्षा तपसि प्रावेशयन्नप्स स्नादि साक्षादेव देहे क्षा त्यन्तं वै क्षौमं देवतज सोममेश देवतामुदीक्षते धनवमेव पासेद्याः स्वामेव देवतामुपैद्यथाषमेवैतामाशास्तेग्नेस्तु शासानं वायोर्वातपानं कृतॄणान्ये विरोषधीनां प्रख्यातादित्या देवानामोदं न प्राणामधिकाशास्तवा एतत् सर्वे क्षयति सर्वाभिरेवैनं देवताभिर्देक्षयति स प्राण एव देक्षत आशितो भवति प्राणस्तेन सहमेधमुपैति घृतं देवानां मस्तुणां निष्पक्वं मनुष्याणां सर्वदैवत्यै यन्नवनीतै यन्नवनीते नाभ्यन्ते सर्वा एव देवताः लोका जगतो देव लोकय देहे नवनीतं तस्मान्नवनीतेनाभ्यन्ते लोमञ्जुषामित्या इन्द्रमित्रमहं तस्य कनेनि कापरापदाञ्जनमभवजे चक्षुरेव भ्यातरुजस्य वृन्ते रक्षणं पूर्वमां ते संजगुं हि पूर्वं मनुष्यानुष्या धावं देव पञ्च कृत्वा यज्ञमे वाते सतोलजान्ते पतोलजा हि मनुष्या यदपतोलजां जेदभद्रजवस्यातोलजाङ्गे मित्र सद्कार्यम ब्रह्मव्रतमहान स्वाहा भोभो भो साध्यां यज्ञजुं स देवमासे तदपोदक्रामत्ये दर्भा अभवन यद्दर्भपुञ्जलैः देवमेज्ञजा स देव आवस्ताभिरेवैनं भवयति द्वाभ्यां भवयजहोरात्राभ्यां देवैनं भवयति पवयति त्रयति मे लोका एभिरेवैनं लोकैः पवयति पञ्चभिः पवयति चाहाभङ्गिः पान्दो यज्ञायैवैनं पवयति षड्भिः पवजति षड्वारुदवरुदभिरेवैति पवयति सप्त छन्दागुंसि छन्दभिरेवैनं पवयति नवभिः पवजति नव वै प्राणप्राणमेवैनं भवजत्यैकभिघुं सब्दा पवयति दश हस्त्या अङ्गुरजोज्या आत्मैकभिगुं सजावानेव पुरुषस्तमपरिवर्गं भवजति चित्पति स्वापुनात्विद्याहमनो वै चित्पतिर्म वैनम् प्रवयति भाग्पति स्वानात् वैनम् पवयति देवस्त्वा सविता वैनम् पवयति दस्यते पवित्रपदे पवित्रे नजस्मेकम् पुनेषमेवैतामाशास्ते वन्दो वै देवा यज्ञा च पुनतदेव भवनेवं विद्वान् यज्ञाय पुनीदे भवद्देव भूतं देवलोकं व्रणयद्य दीक्षतरे गजाहुत्येज्याहस्रुवेण शतस्रोजुहो देश्रुजा पञ्चमीं पञ्चाहाक्षरापं दिह्वाङ्गो जये स्वाहेजा ह गो जाहि पुरुषा जय जय मेधा जय मनसे न जे हि मनसा पुरुषा यज्ञमभिगच्छति सरस्वत्ये भूष्णे न जे वाग्मे सरस्वते पृथिवे भूषा वाचे म पृथिव्या यज्ञं प्रयुङ्ता आपो देवेर्बृहदे विश्व यदेतद्युर्नापो शान्तापो देवे आस्म एव लोकाय समयति तस्मान्ताजिमल्लोकमागच्छन्ति द्या वा पृथिवी इन्द्राहद्या वा पृथिवीजो ते क्षणि दरिक्षेहि हस्मजर्नो हविषा ब्रह्म वै देवानां बृहस्पतिर्ब्रह्मणेवास्मि यज्ञः पराङ्गेत्स प्रजरौलेच्छद्यस्योद्युच्छ सदित्याहुस्तस्माद् नष्टुभाजुहोदज्ञस्योद्यत्य द्वादश वात्सवं धान्युदयच्छन्वित्याहुस्तस्मा द्वादशो देक्षयं सर्वजा विश्वे देवस्य नेत्याहारेतेन विश्वे राजविषोच्छसेत्याह ्रणेन सजित्याः सर्वदेवत्यादिक्षगिति सर्वाभिदेवताभिर्देक्षगिति सप्ताक्षरं वदमष्टाक्षराणित्रे निजा निेण्यष्टावुभं निजानि च द्वारितान्यष्टौ यदष्टाक्षरादेन गायत्रीकादशाक्षरा यद्वादशाक्षरादेन जगति सा र्वाणि षन्दागुं श्रियते तज् सर्वेभिरेवैनछन्दभिर्दे क्षयति सप्ताक्षरम्भमं पदकं सप्तपदा शक्वरे पशवश्चरे पशो नैवावरुं धजयकस्मादक्षरादनाप्तम् भं पदं तस्माद्यद्वाचो तं मनुष्यां दिपोर्णजाजुहो दिपोर्णदिवहि प्रजापतिः प्रजापते राब्धे जाजुधिन्यो न ध्यप्रजापधः प्रजा सदधप्रजागम् सृष्ट्ये स्वाम्ये वे देवेभ्यो यज्ञाया तिष्ठमाने कृष्णो रूपं कृत्वा वक्रं जां वामं त्रयं ते महिमानमपनिधाय देवानुपावर्तेता मेशवारुचोर्णो यत् शुक्रं कृष्णा जलशेषां यत्कृष्णवृक्सामयो शिल्पे स्थयित्वा यच्छुक्लं कृष्णाजनस्येषणैदेवैनस्तत्रवरुन्धे कृष्णाजनेन दीक्षयति ब्रह्मणो वाचय तद्रूपै यत्कृष्णाजनं ब्रह्मणैवैनं दीक्षयति मां शिक्षमाणस्य देवेद्याहरसायतुरेवैदं गर्भो वाचे दीक्षत पुल्पं वासः प्रोन्नुते तस्माद्गर्भा पुरा सोमस्य क्रजातपोर्मेतजत्पुरातपोर्मेदगर्भाः प्रजानादुकास्तु क्रीते सोमेवोर्म यथ एव तथो यथा वशीरागं संवृज्यपोर्मुते तादृगेव तदङ्गिरसस्वर्गं लोकं यन्तपोर्जं कतो यद्रशिष्य ते शरा अभवन्नोर्गे शरायच्छरमजि मे कलाभवत्योर्जमेव रुन्धे मध्झदः सन् नह्यदि मध्यत देवास्मा ऊर्जं दधाति तस्मान्मद्धुन्दत ऊर्ध्वं शराभवं तच्छराणागं शरत्वं वज्रो वै शराक्षु खलु वै मनुष्यस्य भ्यादरु मेखला भवति वज्रेणैव साक्षाक्षुतं भ्रातरुजं मध्यतो वहते त्रिवृद्भवति त्रिवृद्वै प्राणस्त्रिवृतमेव प्राणं मध्यतो मेखलजा यजमानं ्याय प्रागुं समभवत्त इन्द्रो वा इतो सजितं भविष्यति सोमन्यतयो वै मथितोपरोष्यजितं भविष्यति तस्या अनुमृश्ययो निच्छिनत्सा सोतव चोतवचाय जन्मतास्तेन्यवेष्टय तता कृष्णविषाणां निष्णे त्वाषधेभ्योषधजालं गृह्णन्ति कण्डोजेत पामनं भावुकाश्यं भावुकाः कृष्णविषाणया कण्डोजते जानाङ्गोपीठा जाना न पुरा दक्षिणाभ्यो नेतो कृष्णमिठानामभजते यत्पुरा दक्षिणाभ्यो नेतो कृष्णविषाणामपसृतेोनिः प्रजानाम् परापादुकास्यान्नेतासु दक्षिणासु चा त्वानि कृष्णविषाणाम् प्रास्य तियो निर्वैर्यज्ञस्य चा त्वानिर्योनिः कृष्णविषाणायोपयोनिर्मस्य च योनिद्वारा ै देवेभ्यो वाहाग्रामैर्जा तिष्ठमाणा सा वनस्पते वाग्नस्पतिषु वाचमे वा वरुन्धा उदुम्बरो भवत्योर्गापुदुम्बरपोर्जमे वा वरुन्धे मुखेन संयतो भवति मुखदेव सोमे मेत्रा वरुणागदण्डं प्रगच्छद मेत्रा वरुणा हि पुरस्तादिभ्यो वाचं विभज दि पुरुषोभिगच्छति स्वाहा स्वाहोरोरन्तरिक्षान्तरिक्ष हि यज्ञ स्वाहा यज्ञं वा स यज्ञस्तमेव साक्षादा पुष्टिकरोति वाचं यच्छति यज्ञस्य च ध्यादे स्वाहदेवेभ्यदेवभ्यदैवेनष्ये तत्रा हनपुराक्षत्रेभ्यो वाचं विसजय जग् पुराणक्षत्रेभ्यो वाचं विसृजय चं विसृजति यज्ञं व्रतो वेदे यज्ञमेवाभिवाचं विसृजति यदि विसृजयन्द्वैः विष्णवेमनुजाद्यज्ञो वेमिष्णोज्ञेनैव यज्ञं सन्तनो दिनैवेयं वनामहरिद्याः यज्ञमे वामृतयति सुमारानासद्वसनिद्याः अष्टिमेवा वरुन्धे ब्रह्मवादिना वदन् दिहोतुजं देक्षितस्य गृहा मितिहमि देश यज्ञाद्य मनोजु बहुदं ने बाहुं वैगं रक्षागं सुजिखागं संयज्ञः खलु वै रक्षोहाग्ने त्वगं सुजादिषिव सुमन्दिषे महेजाहाग्निमेव स्तविधि रक्षतामवहत्या औहद्यमिवेषत्वमग्ने व्रतपा असेद्याःग्निल वै देवानाम्रतवशिस्स देवैलम्ब्रतमालम्भयति देव आमर्त्येष्वेत्याह देवोग्नेभ्येषु वै यज्ञेष्वेद्याहयज्ञेष्वेष वै देवेक्षिता शुश्रिं त्रियं देवता ्रामं दिरिश्वे देवा अभिमामावृद्रं निद्याहेन्द्रिजेणैवैनं देवताभिस्सन्नयदिलदे तद्यचरणं ब्रूजाद्यावददेव वसूनपि दीक्षे दावं दोस्तव सवश्यूरास्वे यत्सो मा भोज भरे व्याहरिमिदेव पशूनवरुन्धे चन्द्रणसि मम भोगाय भवेत्याहयथा देवलमेवैनाः प्रतिगृह्णादिवायवेत्तावरुणाय त्वे नुदिशेत यथा देवदम् दक्षिणागमयेदा दे देवताभ्यो वृश्चेतज देवमेता अनुदिशति यथा देवदमेव दे दक्षिणागमयति न देवताभ्या दे दे वृश्च देव देवी रामो अपान्नपादित्या हयद्धोमेवामे ददाहाच्छिन्नन्तम् पृथिव्या अनुगेशमिद्या हसेतुमेव कृत्वा देवा वेदे भजनमध्यवसा जषा न ्रवेद्वरं वृणेमत् प्राजनादे तस्मादादित्य प्राजनेनमादित्यमुदयनेन पञ्चदे पञ्च दिशो दिशासोक्षरा वन्दितोऽरुन्ध्यागस्य स्वस्ति मजन् प्राचीमेव जातिना लक्षिण सोमेस्त्यं यजति प्राचीमेव जाति संप्रजानानि वत्स्यायस्वस्त्यमिष्ट्वाग्नेशोमौ यजति चक्षुषे वा यज्ञस्य यदग्नेशोभौधाभ्यामेवानुपश्यति अग्नेशो माविश्वा सवितार सभितृप्रसोदमेवानुपश्यति सभितारमिश्वादिते यज अदितिरस्यामेव प्रतिष्ठायानुपश्यत्यदिति विश्वा मारुम च मन्वाह मनतो विषो देव विशं खलु मे कल्पमानं मनुष्यविषमनुकल्पदे जन् मारुम च मन्वाह विषा मृगेः ब्रह्मवादिना स्त्यमात्मा प्रजानो तरिजाधात्मानवं तरि जाद्यो याजानं तरिजा भजामं तरिजा यदः खलु पे यज्ञस्य वितनस्य नघृगते तदनु यज्ञः परा भवति यज्ञं निष्कास उदजनेजमभिः सन्तर्याः प्राज्ञाज्ञा उदजनेजस्य राज्ञा कुर्यात् परागमं लोकमारोहे प्रमायुगस्याज्ञा प्राजेदस्य मुलोऽनुभाग्या सामुदजनेरस्य राज्ञा करोत्यस्मिन्नेव लोके प्रजदि तिष्ठदे <today> कर्द्रोश्च वै सुपर्णे चात्मरूपजोरस्पर्धेता गुं सा कब्द्रोस्वर्णे वजरत् सा ब्रभेत् तृतेजस्या पितो दिवसोमस्तमाह रतेनात्मानं निष्क्रीणेश्वेति वै कब्द्रोरसौ सुवर्णे शन्तांसिसौ वर्णे सा ब्रभेदस्मै वै पितरौ पुत्रान् विभृजस्त्रितेजस्यामितो ुतपदचतुर्दशाक्षरा सदेशा प्रान्यवर्तदस्यै द्वे अक्षरे अमीरे जागुंसा पशुभिश्च देक्षया चागच्छत् तस्माज्जगति छन्दसां तस्मात् पशुमन्दं देक्षो त्रयोदशाक्षरा स देशा प्रान्यवर्तदस्यै द्वे अक्षरे अमीरे धागुंसा दक्षिणाभिश्च तपसा चागच्छत् ज्योतिषाभ्यं त्वं साहरचत्वारि चाक्षराणि चाष्टाक्षरा समबद्धायत्रेष्ठा आशिखमवन सम्भरत्येव स्त्रीकामामे गन्धर्वा स्त्रिया निष्क्रीणामेवाचग्रस्त्रियमेकहा जने जनानिरक्रीणान् सारोहिद्रोपङ्कृत्वा गन्धर्वेभ्योपक्रम्यादे हितो जन्मदेवा अब्रुवन्नपयुष्पदक्रमेणास्मानुपावर्तते युष्पयामः ब्रह्मगन्धर्वा अवजन्न गायम् देवा स देवाङ्गायमुपावर्तता ्यायं दग्निस्त्रियः कामजं दे कामुकाय लग्निस्त्रिजा भवं तिजयेषु भवन्त्येकहा क्रीणादि तस्मादेकहां वदन्त्यश्वा सप्तशभया क्रीणाति सर्वजैवैनं क्रीणाति यच्छेदजा जमानस्याद्यत्कृष्णयास्तरणे स्यात् प्रमायुको यजमानस्याद्यद्विलोपजावात्रग्ने स्यात्सवानञ्जिनेयात्तम्बा नोजनेजातरुणयाग्लिङ्गाक्ष्याक्रीणाद्यतद्वै सामत्सरोमव्यस्तैनम् देवदयाक्रीणादि हिरण्यमभवत्तस्मादद्भ्यो हिरण्यं गुणन्ति ब्रह्मवादिनो वदन्ति कस्माच्छदनस्थिकेन प्रजाः प्रवीयन्ते स्तन्वतीर्जायन्त यद्धिरण्यं घृते वधादजुहोति तस्मादनस्थिकेन प्रजाः प्रवीयन्दे स्थन्वतेर्जायन्तजे तद्वा अग्ने प्रियन्धा मयद्धृदन्दे जो हिरण्यमियन्देषु ्रगणोरिदं वर्चयित्या हसतेजसमेवै न पुंसकनुकरोत्यसो संभरत्येवैमध्यमवदध्याद्गर्भाः प्रजानाम् परा पादुकास्यर्भध्यमवदधाति गर्भाणां धृत्यै निष्प्यं बध्नाति प्रजानाम् प्रजनमाजवाग्वाजेषायत्सोमक्रय मेजूरसीत्या यध्य मनसा चवते तद्वाचावदति हिष्टा विष्णवरित्याह यज्ञा वै विष्णुज्ञायेवै माञ्जुष्टाहृतस्यान्धे काण्डे काण्डे वै क्रियमाण यज्ञागुं सुखागुं सन्त्ये खलु वा सूर्यश्च सूर्यस्य च क्षुवारुहमग्ने रक्षणे निकामित्याहय रक्षोहरवन्थास्तं समारोह दिवाग्स्त्येवनामेतत्तस्माष्टाः प्रजाचायं रेचिदसीत्याहयद्धि मनसा चेतयदेतद्वाचावदति मनासेत्याह यद्धि मनसा तिगच्छति तत्करोतिरसि त्याहयद्धिमनसाध्यायतिलद्वाचामदति दक्षिणासेत्याह दक्षिणा ह्येषा जज्ञितासेत्याह यज्ञिजामेवेनाहङ्करोति क्षत्रिया सेत्याह क्षत्रिया ह्येषादितिरस्य भजतस्येष्मेत्याहयदेवादित्यप्राणीयो जज्ञानामादित्यभुजनितस्तस्मादेव माहयदबद्धा स्याजयता स्याद्यत्पदिबद्धा न रणेऽस्याक्रमादितो यजमान स्याद्यकर्मे दावाग्ने स्यात्सवान्यम्बान्यो जनेजान्मित्रस्त्वा परिबध्ना द्वित्याह मित्रो वै शिवो देवान्ते नैवै पदिबध्नातिघोषाध्वनः पा द्वित्याहेयं वै भोषे मामेवास्यादिपामकः समष्ट्या इन्द्रायाध्यक्षायैत्याहे मेवास्याध्यक्षं करोत्यनुत्वा माता मन्यतामनुपिताननुमत जैवे न याग्रीणादि सा देवी देवमच्छेत्या देवे सा देवन्द्राय सोममित्याहेन्द्राजहि सोम न्तमेवास्यै परस्ता दधात्या वृत्यै क्रोरमिव वादे तत्करोग्रस्य कीर्तयति मित्रस्य वचेत्या हशान्ति वाचा वादेश विक्रिणीतेयः सोमत्रयज्ञा स्वस्त्रि सोमसखा पुनरेहि सहरयेत्याः वाचैव वा विक्रीय पुनरात्मन्वाचम् धत्ते न वदासुकास्य वाग्भगवति य एवम् वेदा षड्वदान्यनुनिग्रामतिषणां वाङ्नातिपदत्युतसंवत्सरस्यायने जावत्येव वाग्दामवरुन्धे सप्तमे पदे सप्तपदा शक्वरि पशवश्च पशूनेवावरुन्धे सप्तग्राम्याः पशवः सप्तारण्याः सप्तशन्दायस्त्युभयस्यावरुध्यैवस्यसि रुद्रासेत्याहरूपमेवा स्यादेतन्महिमानं या चष्टे बृहस्पति स्वाह ैरण्त्याह ब्रह्म वै देवानां बृहस्पति ब्रह्मणैवास्मै वसु नवरुन्दै रुद्रो वसुधृराजिगे त्रित्याह वृथे पृथविजास्वामोर्धन्नादिधर्मज गजत नयित्याह पृथविजाह्यमोर्धाय दजत नण्डलायाः पदजित्याहैराये तत्पदं यत्सौ भक्वजन्ये कृतपति स्वाहेत्याहय देवास्मि तस्मादेवर्जुस्याद्रक्षागं श्रीयज्ञकं हञ्जिरण्यमुपास्त्यजुहोत्यग्निवत्युर्भवजिनयज्ञकं रक्षागं श्रिकाण्डकाण्डवे द्रियमाणे यज्ञकं रक्षागं श्रीभागुं सन्धिपरिलिखितं रक्षः परिलिखिता हराधकनित्याह रक्षसा हत्या इदमहुं रक्षसो ग्रीवा अपि क्रन्वामियोस्मान् द्वेष्ट्यञ्च भयं विष्मयत्या हौ वापपुरुषौ यञ्च द्वेष्ट्यश्चैनं द्वेष्टितयो देवानन्दायङ्ग्रीवाः क्रुन्दति पशवो वै यजमानाय जा प्रयच्छति यजमान एव जा रयन्दधाति पत् एष आत्मनो यत्पग्नि यथा गृहेषु निधत्ते तादृगेव तत्त्वष्टिपतीते सेजेत्याहत्वष्टा वै पशूनां मिथुना नागं रोपद्ग्रोपमेव पशुषु दधात्यस्मै वै लोकायगारः पत्याधीयते मुष्माहवनिरो यद्गारः पत्य उपपेतस्मिं लोके पशुमान् स्याद्यदाहवणी जयमुष्मम् लोके पशुमान् स्याद्भयोपमपत्तु भयो देवेन लोकयोः पशुमन्तम् करोति ब्रह्मवादिनो वदन्ति विचित्य सोमा न विचित्या इति सोमो वावोषदेजा तस्मिन् यदापन्नम् ग्रसितमेवास्य तद्यद्विच् मुजाद्यथा स्याद्ग्रसितम् निष्ठियति तादृगेव तद्यन्न विचिनुजाद्यथान्नापन्नम् विधावति तादृगेव तत्क्षोधुकोध्यस्याक्षोधुको यानः सोमविक्रयिम् सोम पुंसो धद्येव ब्रूजाद्यतीतरयदीतरमुभजेनैव सोमविक्रयिणमर्पयति तस्मात् क्षोधुकोरुणो हस्माहोपवेशि सोमक्रयमये वा हन्तु मेयसवदमवृन्ध इति पशूनां चर्मन्विमीते पशूनैवापरुन्धे पशो न वरुन्ध पशुमानेव भवत्यपामन्ते क्रीणाति सरसमेवैनं क्रीणात्यमात्र्योऽसीत्याहमेवैनं गुरुजे शुक्रस्ते ग्रहजत्याः शुक्रोह्यस्य ग्रहो न साक्ष जातिमहिमानमेव स्याच्छ जाति तस्मादनो जा बाह्यं समे जीवनं यद्रखगुवायत किं श्रेष्णाहरन्ति तस्माच्छेदृषहार्यं गिरौजे ीवनमभिच्छन्दतारमित्यतिच्छन्द सर्चा मिमीते तिच्छन्दा वै सर्वाणि छन्दा सर्वेऽपि छन्दोभिमेते वर्ष्मवादेशान्दसां यदतिच्छन्दायिच्छन्त सर्चा मिमीते वर्ष्मै वै नगुं समानानाङ्गोतेकजकजोत्सर्गं मिमीते यातयां निजा यातयां निजै वैनं मिमीते तस्मान्नावि अङ्गुलजस् सर्वाः सङ्गुष्ठमुपणिगृण्स्माचरति यत्सह सर्वाभिर्मिमेत सद्विसृष्टा अङ्गुलयो जालेरण्यैकजैकजोत्सर्गं निमेत तस्माद् विभक्ता जायन्ते जा पञ्चकृत्वो जयजुषा मिमेत पञ्चाक्षरान्तो यज्ञो यज्ञमेवापन्धे पञ्चकृत्वस्तोष्णेन्द सम्पद्यन्ते दशाः क्षरा विराडन्नं विराग् विराजैवान्नाद्यमवरुन्ध यद्यजुषा मिमेदे भोजमेवावरुन्धयत्तूष्णीं भविष्यद्यद्वैतावानेव ेवैताभिः समर्थयति वशभोमै सोमः प्राणायत्वे द्विव नह्यति प्राणमेव पशुषु दधाति यानायत्वे चलसृन्थति यानमेव पशुषु दधाति तस्माः स्वन्तम् प्राणा न जहति यत्क्रमजाते सफेन क्रीणानि विपणेतागो अर्घ्यं सोमं कुरुजातगो अर्घ्यं यजमानमगो अर्घमध्वर्युङ्गोऽस्तु महिमानङ्गतिरेद्गवाते क्रीणानित्येव ब्रूजाद्गो अर्घ्यमेव सोमं करोति गो अर्घ्यं यजमानं गो अर्घमध्वर्यगो महिमानमवतिरत्यजया क्रीणाति सतपसमेवैनं क्रीणाति हिरण्येण क्रीणाति शुक्रमेवैनं क्रीणातिथेन्वा क्रीणातिसाशिरमेवैनं क्रीणात्यषखेन क्रीणातिसेन्द्रमेवैनं क्रीणात्यरुहा क्रीणाति बह्निर्वानड्वान बह्निनैव वह्नियज्ञस्य क्रीणाति मिथुनाभ्याः क्रीणाति मिथुनस्यावरुध्यैवाससा न्त विराडन्नम् विराड् विराज रुन्धे तपसस्तनोरसि प्रजापदे वर्णयत्याह कुशुभ्यजय आत्मनाः पुरस्काय गच्छति श्रियं प्रपशूनाः पुनो दियदेवं वेदशुक्रन्ते शुक्रेण क्रीणामेत्याह यथा यजुदेवैतद्देवा वैर्य हिरण्येन सोपमक्रीणं तदधीशः पुनराददकोहिते यसादि मन्त्रिणेजात्तरीषः पुनरादतीत ते जेवात्मन्धत्तेऽस्मे ज्योतिःसोमविक्रयि नित्या ज्योतिरेव यजमाने दधातमसा सोमविक्रयणमर्पयतिपग्रथ्यहन्या दन्तशोकास्तागं समागं सर्वास्युहितमहं सर्पाणां दन्तशोकानान् गुरीवा उपग्रथ्नामीत्याह दन्तशोकास्तागं समागं भवन्ति तमसा सोम विक्रयणं विध्यति स्वानभ्यादेत्याहै वा, वा अमुष्मिं लोके सोममलक्षन्तेभ्योऽसोममाहर्म यदेते ह्यः सोमक्रयणान्नानुदिशे द्रीतोऽस्य सोमस्यान्नास्तितेऽमुष्मिं लोके सोमगुरक्ष युर्यदेतेभ्यः सोम क्रयणाननुदिश वि क्रीतोऽस्य सोमो भवत्येते स्यामुष्मिं लोके सोमगुम् रक्षन्ति वारुणो वैत्रेतः सोम उपनग्धो मित्रो नये सुमित्रधानित्याहशान्त्यादिन्द्रस्योरुमाविश दक्षिणमित्याह देवावीरं सोममिक्रीणन्तमिन्द्रस्यो दक्षिण आसादयन् नेष खलु वादेतरिहेन्द्रो यो यजते अज़ चूज़ चूज़ त्यादित्यासीनेत्याह यथा गजुेवे त्येन मैत्रं करोति वारुण्यक्षा साधयति स्वदैवैनं देवतया समर्थयति वाससापति जानदेवत्यं वैवासः सर्वातिदेवैनं देवताभिः हवने शुतरे क्षणवाज मित र्वत्सुपयोग्निरास्वित्याहपयो ह्यग्निरासुहृत्सुर्वमित्याहत्सु हि क्रतुं वरुणो विक्ष्वाग्निमित्याहवरुणो हि विक्ष्वाग्निं दिवि सौर्यमित्याह दिवि हि सोर्चतुंस मम द्रामित्याह्रावाणो वा अद्रयस्त्रशुवा एष सोमं रथा यजते तस्मादेव माहोरुत्यञ्चागवेदसमिति सौर्यर्चाकृष्णाचिनं प्रत्या नह्यति रक्षसामवहा ्याहुस्रावेतधूरुषाः विद्याह यथा यजुर्वैतप्रच्य वस्पतु वस्पद इत्याह भूताना विह्यगवजविश्वान्यभिधामानियेत्याह विश्वानिह्य धामानि प्रचते मात्वारितयदेवासो महायमाणं गन्धर्वो विश्वारियमष्णात्तस्मादेव माहापरिमोषा यजमानस्यस्तस्य जञ्जेत्य हयजमानस्यैवषयज्ञस्याण्डारम्भोणवच्छित्यै वरुणोऽश यजमानमभ्येति यत्क्रीडस्सोम उपनद्धो नमो मित्रस्य वरुणस्य हं जग्निष्ठते तौ सम्भवदः पुरा खलु वाविषमेधायात्मानमारभ्यो दीक्षितो यदग्ने सोमेजं पशुमालभत आत्मनिष्क्रजमयेवास्य सस्मात्तस्य नास्यं पुरुषनिष्क्रजमयि वह्यथ खल् बाहुरग्नि सोमाहाम्बा इन्द्रो वित्रमहण्ति यदग्ने सोम्यं पशु ग्नदेवास्य स तस्माद्भाष्यम् वारुण्यर्चा परिचरति स्वजीवैनम् देवतया परिचरति